श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध तृतीयोऽध्यायः यथा लोभस्त्वसन्तोषो मानोदम्भो कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः यथा माया नृतं शोको मोहोभयं दैन्यं सकलिस्तामश स्मृतः यस्माच्छिद्रिशो मर्त्या छिद्रभाग्या महाशनाः कामिनो वित्तहीनाश्च स्वैर्ण्यश्च श्रियो सती दस्युत्कृष्टा जनपदा वेदापाखण्डदूषिता राजानश्च प्रजा भक्षा शृष्णोदरपरा आव्रतावटवो शोचाभिक्षुवश्च कुटुम्बिनः तपस्विनो ग्रामवासान्यासिनोद्यसलोलुपाः ह्रस्वकाया महाहारा भूर्यपत्यागतश्रियः सस्वत्कटुकभाषिण्यचोर्यमायोरुसाहसा प्रलिष्यन्ति वै छिद्राः किराटाकूटकारिणः अनापद्यपि मश्यन्ति वार्तां साजुजुगुप्सितां पतिं त्यक्षन्ति निर्दव्यं भृत्या अव्यखिलोत्तमं भृत्यं विपनं पतयः कोलं गाश्चापयस्मिनिः पितृभ्रातृसुहृद्यातिन् हृत्वा सौरथसोषिदाः ननादिश्चार्संवादादीनाश्रयिणा कलौ नराः सुद्रा प्रतिगृहंस्यन्ते तपो वेशोपजीविनः धर्मं वक्षन्त धर्मज्ञा अधिरुह्योतमासनम् नित्यमुद्विग्नमनसो दिर्भिक्ष कर्कर्षिता निरन्ये भूतले राजन्ननावृष्टि भयाचराः वासोऽन्नपानशनव्यवायस्नानभूषणैः हीनां पिशा च सन्दर्शा भविष्यन्ति कलौ प्रजाः कलौ काकीलिं केऽप्यर्थे विगृह्य त्यक्तसौहृदाः त्यक्षन्ति च प्रियान् प्राणान् हरिष्यन्ति सुकानपि न रक्षिष्यन्ति मनुजा स्थविरो प्रचरावपि पुत्रान् सर्वार्थकुशलान् छुद्राशिष्णो दरम्भराः कलौ न राजञ्जङ्गतां परं गुरं त्रिलोकनाथानतपादपङ्कजं प्रायेण मर्त्या भगवन्तमर्त्युतं यच्छन्ति पाखण्डविभिन्नचेतसां यन्नामधेयं म्रियमाण आतुरः पदं स्खलन् वा विवशे गृणन्पमान् विमुक्तकरमार्गल उत्तमां गतिं प्राप्नोति यच्छन्ति न तं कलौ जनाः पुंसां कलिकृतान्दोषान्दव्यदेशात्मसम्भवान् सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः सुतसङ्कीर्ततो ध्यातः पूजितश्चादितोऽपि वा नृणाम् धुनोति भगवान् ह्यस्थो जन्मायुताशुभम् हे यथा हेम्नि स्थितो दुर्वर्णं हन्ति धातुजम् एवमात्मा गतो विष्णुर्योगिनामशुभाशयम् विद्या तपः प्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः नान्त्यन्तशुद्धिं लभतेऽन्तरात्मा यथासिद्धेस्थे भगवन्तनन्ते तस्मा सर्वात्मना राजन् हृदिस्थं कुरुकेशवं म्रियमाणो ह्य विहिस्ततो यासि परां गतिं म्रियमाणैरभिध्येयो भगवान् परमेश्वरः आत्मभावं नियन्त्यङ्गसर्वात्मा सर्वसंशयः कलेदो सनिधे राजन्नस्ति शेको महान् गुणः कीर्तनादेन कृष्णस्य मुक्तसङ्गपरं परम्रजेत। कृते अध्यायतो विष्णुं त्रेतायां यजतो मखैः द्वापरे परिचर्यायां कलौ तद्धरि कीर्तनात् ते श्रीमद्भागवते महापुराणे पारमहंसां शयितायां द्वादशस्कन्धे तृतीयोऽध्यायः